मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायम् 64 फोर् विष्णुदौत्यवर्णनं श्रीगणेशाय नमः प्रह्लाद उवाच किमर्थं दुःखिदो देवशनिस्तत्र बभूवः तन्मे सकलं ब्रूहि रविपुत्रस्य चेष्टिदं गृत्समद उवाच शृणु तत्रैव संजातं वृत्तान्तं साधु सत्तमा तेनते सर्वसंदेहो सर्वसन्देहो नाश्यं यास्यदि निश्चितं शनिरुवाच शृणुषक्रेमहामाये येकदाहं गृहे स्थितः सूर्यपूजनसंशीलोऽध्याननिष्ठो भवं पुरा भवंपुरा। समायाद पत्नी मे वेशधारिणी भूषणाैर्भूषिदा सर्वार्मां जगाद सुविह्वला निशितत्र समायादा पत्नीमेवेषधारिणी भूषणायैर्भूषिदा सर्वैर्मां जगाद सुविह्वला ऋदुदानमिदानीं त्वं मह्यं देह्येव भानुज पश्य मां सर्वशृङ्गारयुक्ताम् भरुतर्नमोऽस्तु दे अहं ध्यानसमायुक्तो नापश्यं चहितां प्रियां द्वि मुहूर्ते गदेशा मां शशापक्रोधसंयुधां यदिमां पश्यसि न च विफलं मृदुं करों शि तेन दृष्टं यत्त्वया नष्टं भविष्यदि एवमुक्त्वा गदा सा वै तदहादहमञ्जसा न पश्यामि कदा कुत्र जगदम्ब यथायथं तस्य तद्वचनं श्रुत्वा जगदम्बा तमब्रवीद पश्यत्वं ग्रहवैढुण्डिं तेन सर्वं शुभं भवेद एवमुक्त शनिस्तत्र गणेशानमलोकयद सर्वाङ्गैः शोभमानं वैशस्त्रीकं साधुसत्तमा ततस्तस्य गणेशस्य मस्तकं सहसा गतम् अन्तर्धानं च तद्दृष्ट्वा हाहाकारो बभूवः हा। मुहूर्ते प्रगदे तत्र पुनस्तं देवविप्रपाः अपश्यन् गिरः सर्वावयवसुन्दरम् ततो हर्षयुधा सर्वे तुष्टुवुस्त गजाननं शनि प्रणदभावेन तुष्टाव गणनायकं शनिरुवाच नमस्ते गणनाधाय पुष्टिकान्दाय ते नमः विश्वम्भराय सर्वादिपूज्याय तु नमो नमः सर्वेषां मातृरूपेण स्थितेयम् पुष्टिकारिका पिता त्वम् पुष्टिदाता च सत्तारूपेण संस्थितः क्षमस्वैदम् चापराधम् मदीयम् गणनायक पुत्रोऽहं ते महाभागप्रार्थयेद्विरदानन किं स्तौमि त्वां च कैरम्बयोगरूपं सनातनम् वेदाध्यायैर्योगिभिः स्तोतुं शक्यते न नमाम्यहं तथापि बुद्धिप्रामाण्यात्स्तुवन्दि त्वां महेश्वराः अतोऽहं त्वां महाराजस्तौमि भक्तिसमन्वितः नमस्ते बुद्धिकान्ताय सिद्धिनाध नमोऽस्तु ते ब्रह्मणां हेरम्बाय नमो नमः सगुणत्वे सरूपाय नैर्गुण्ये गजरूपिणे तयोर्योगे च योगाय शान्तिरूपाय ते नमः पुन्नामनरकात्रादा पुत्रस्तेन प्रकीर्तितः शिवपुत्राय वैतुभ्यं गणेशाय नमो नमः सिद्धिर्मायाजवामाङ्गे मायिके दक्षिणच धीः तयोरभेदयोगे त्वमेकदन्तायते नमः एवमुक्त्वा प्रहर्षेण सरोमाञ्जो बभूवः प्रणनामससाष्टाङ्गं भक्तिभावेन सम्प्लुतः तमुक्ताप्यगणाधीशो जगादशनैश्चरम् वरं वर य दास्यामि यस्ते चित्ते प्रवर्तते त्वया कृतमिदं स्तोत्रम् मम प्रीतिकरं भवेद् यः पठिष्यदि यो मर्त्यशृणुयात् सर्वदं भवेद ततस्थं गणनाथं स उवाचरविनन्दनः भक्तिं देहि त्वदीयां मे शपान्मोचय प्रभो ततस्तं गणराजश्च स जगादासुरेश्वर भक्तिर्मदीया भविता दृढा सौरेण संशयः क्रूरदृष्ट्या च यं कञ्चित् पश्यसि त्वं शनैश्चर स एव नाश मायादु निःशापो भव सर्वथा ततो विष्णुं जगामासौ तं उवाच देहि मे नाथ गणेशोपासनां शुभां ततस्ते न समाख्यातं कवचाधिकमुत्तमं गीतासारं ददौ तस्म एकाक्षरमनुं प्रभोः ततस्तं प्रज यौ प्रणम्य सशनैश्चरः योगं च साधयामास गाणपत्यो बभूवः तथा काले जगदे शङ्करमब्रवीद गणेशो भावयुक्तं यद्वचनम् भक्तवत्सलः किं तादेवदेवे श्यार्मुनिभिश्च सदा शिव वनवासं करोशित्वं त्वं वद कारणमत्र मां जगाद शङ्करो हृष्टस्ततस्तम् भक्तिभावितः जगत्सर्वं दुर्मदिना सुरेशेन पराजितं ब्रह्माण्डाधिपदिसोऽभिप्रजादो वरदानदः अस्माकं सकलैश्वर्यं हृत्वा श्रेष्ठो भवत् स्वयं हृत्समद उवाच शिवस्य वचनं श्रुत्वा क्रोधयुक्तो बभूवः गजाननो जगादेदं वचनं हितकारकं गणेश उवाच महीते पुत्रतां यादे दुर्लभं किञ्च भवेत भवेत् महादैत्यं पश्य मे पौरुषं शिव यवमुक्त्वा महादेवं सन्नद्धः स गजाननः मूषकाजूटको भूत्वा त्वगमध्यैत्यनायकम् तमनुप्रययुर्देव मुनयो भक्तितत्पराः नगरप्रान्तभागे च स गत्वा संस्थितोऽभवद दूतम् सम्प्रेषयामास विष्णुम् देववरं ततः स गत्वा दुर्मदिं दुष्टमभोधीद्युक्तिभिश्च तम् विष्णुरुवाच स्वानन्दवासकारीयो गणेशो ब्रह्मनायकः शिवेन तपसा सोऽपि अजिधपुत्रकाम्यया स एव पुत्रतां प्राप्तपुष्टिशो यः समागतः त्वाम्बोधितुं च मांसोऽपि प्रेषयामासुर्मदे देवानां द्वेषमुत्सृज्य वासपादालमण्डले स्वस्वधर्मरदालोका भवन्तु विगदज्वराः एवमुक्तो महादैत्य तमुवाज जनार्दनम् द्यूत्येन त्वं समायादो नो चेद् धन्वि प्रभावदः कस्वानन्दपदि सोऽपि देवपक्षधरो भवद तं हनिष्यामि वेगेन द्रक्ष्यसि गजाननं तदो विष्णुसमायाधो गणेशं तस्य दुर्मदेहे वृत्तान्तमवदत्तीव्रं श्रुत्वा चुक्रोधविघ्नवहा बभूव मूषकारूढोत्तं हन्तुं शस्त्रधारकः देव सर्वे च सन्नद्धा बभूवुरसुरेश्वर ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते विष्णुदौत्यवर्णनं नाम चतुष्षष्टितमोऽध्यायः ओम्